ऐश्वर्यवृद्धिमन्त्रखनम् इन्द्रश्रेष्ठानि मन्त्रम् केन् बी चाण्डर्ड् एनिडे एनि टैम् वाक्यम् इन्द्रश्रेष्ठानि द्रवीणानि देहि चित्तिन् दक्षस्य सुभगत्वमस्मि पोषं रयेणामरिष्टिन्तनूना स्वात्मानं वाचसो दिनत्वमनुहा घनम् इन्द्रश्रेष्ठानि श्रेष्ठानीन्द्रेन्द्रश्रेष्ठानि द्रवीणानि द्रवीणानि श्रेष्ठानीन्द्रेन्द्रश्रेष्ठानि द्रवीणानि श्रा निद्रवीणा निद्रविणा निश्रष्टा निस्रष्टा द्रवीणानि धेहि देहि द्रवीणानि द्रवीणानि धेहि चित्तिञ्चित्तिं देहि द्रवीणानि द्रवीणानि धेहि चित्तिं देहि चित्तिञ्चित्तिं धेहि धेहि चित्तिं दक्षस्य दक्षस्य चित्तिं धेहि धेहि चित्तिं दक्षस्य चित्तिं दक्षस्य दक्षस्य चित्तिञ्चित्तिं दक्षस्य सुभगत्वम् सुभगत्वम् दक्षस्य चित्तिञ्चित्तिं दक्षस्य सुभगत्वम् दक्षस्य सुभगत्वम् सुभगत्वं दक्षस्य दक्षस्य सुभगत्वमस्मे अस्मे सुभगत्वम् दक्षस्य दक्षस्य सुभगत्वमस्मे सुभगत्वमस्मे अस्मे सुभगत्वं सुभगत्वमस्मे सुभगत्वमिति सुभगत्वम् अस्मे इत्यस्मे पोषं रयेणां रयेणां पोषं पोषं रयेणा मरिष्ठिमरिष्ठिं रयेणां पोषं पोषं रयेणा मरिष्ठिं रयीणा मरिष्ठिमरिष्ठिं रयेणां रयेणा मरिष्ठिं तनूनां तनूनां मरिष्ठिम् रयीणां रयेणा मरिष्ठिन्तनूना अरिष्टिन्तनूनां तनूनां मरिष्टिमरिष्टिं तनूनां स्वात्मानं स्वात्मानं तनूनां मरिष्टिमरिष्टिं तनूनां स्वात्मानं तनूनां स्वात्मानम् स्वात्मानं तनूनां तनूनां स्वात्मानं वाचो वाचस्वात्मानं तनूनां तनूनां स्वात्मानं वाचः स्वात्मानौ वाचो वाचस्वात्मानं स्वात्मानं वाचसु दिनत्वम् सुदिनत्वं वाचस्वात्मानं स्वात्मानं वाचस्सुदिनत्वं वाचस्सुदिनत्वं सुदिनत्वं वाचो वाचस्नत्वम सुदिनत्वं वाचो वाचस्तुदिनत्वम सुदिनत्वमन्हामन्हा सुदिनत्वं सुदिनत्वमन्हा सुदिनत्वमिति सुदिनत्वम् अनहा मित्यनहा